हरि ओम् श्रीसीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे त्रयोविंश सर्गः श्रीरामेण लक्ष्मणम् प्रति विनाशसूचकानाम् लक्षणानाम् वर्णनम् लङ्काम् प्रत्याक्रमणम् च निमित्तानि निमित्तन्यो दृष्ट्वा लक्ष्मण पूर्वजः सौमित्रिम् सम्परिष्वज्य इदम् वचनमब्रवीत् परिगृह्योदकम् शीतम् वनानि फलवन्ति च बलोघम् संविभज्येमम् व्यूहतिष्ठेमलक्ष्मण लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् प्रबर्हणम् प्रवीराणाम् वृक्षे वा वाता च कलुषा वान्ति कम्पते चैव सुन्धर पर्वताग्राणि वेपन्ते पतन्ति च महीरुहा मेघाक्रव्याद सङ्काशा परुषा परुषस्वनः क्रूराक्रूरम् प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः रक्त चन्दन सङ्काशा सन्ध्या परम ज्वलतः प्रपतत्येतत् आदित्यादग्निमण्डलम् दीना दीनस्वरा क्रूरा सर्वतो मृगपक्षिणः प्रत्यादित्यम् निदन्ति जनयन्तो महद्भयम् रजन्याम्प्रकाशस्तु सन्तापयति चन्द्रमा कृष्णरक्तान् सु पर्यन्तो लोकक्षयैवोदितः ह्रस्व वृक्षो प्रशस्तश्च परिवेश सुलोहितः आदित्ये विमले नीलम् लक्ष्मण लक्ष्मण दृश्यते रजसा महता चापि नक्षत्राणि हतानि च युगान्तमिव लोकानाम् पश्य शंसन्ति लक्ष्मण काकाः चेनास्तथा गृध्रा परिपतन्ति च शिवाशाप्यशुभानादान् नदन्ती सुमहाभयान् शैलैः शैलैश्च खड्गैश्च विमुक्तैकपि राक्षसै भविष्यति आवृता भूमिम् मास शोणितकर्दमा क्षिप्रम् मध्येव दुर्धर्षाम् पुरीम् रावणपालितम् अभियाम जवेनैव सर्वै हरिभिरावृतः इत्येवमुक्त्वा धन्वी स रामः सङ्ग्राम धर्षणः पतस्थे पुरतो रामो लङ्काम् अभिमुखो विभू सविभीषण सुग्रीवः सर्वे ते वानराषभः पतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे घवस्य प्रयासम् तु सुतराम् वीर्यशालिनाम् हरीणाम् कर्मचेताभिः तुतोष रघुनन्दनः इत्याशी श्रीमद् वाल्मीकि श्रीमद् रामायणे वाल्मी आदिकाव्ये युद्धकाण्डे त्रयोविंश सर्गहे श्रीसीतारामचन्द्रार्पणमस्तु